मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं नैन्टीन् मूषकदेवसमागमम् श्रीगणेशाय नमः मुद्गल उवाच हृदयाद्बहिरागत्य शेषस्य गणनायकः पुत्रभावेन संस्तोभून्मूषकारूढ आदराद तद उद्धाय शेषस्तं प्रणनाम कृताञ्जलिः पूजयामासर्वेश्यं पुनः स प्रणदो भवद अथर्वोपनिषद्भिष्टं तुष्टावकरसम्पुटैः नागेश प्रार्थयामास भक्तिनम्रात्मकन्धरः शेष उवाच योगेशस्त्वं गणाध्यक्षब्रह्मणां नायकस्मृतः कथं मे पुत्रभावेन संस्थितोऽसि विडम्बनं तदोगजाननस्तं वै मोहयामास मायया मोहिदो नागराजस्तं पुत्रं मेने गजाननं शेषशस्त्री क आगृह्य लालयामासबालकं क्रमेण पञ्चवर्षस्थो बभूवे तद्गृहे प्रभुः अधशृणुप्रजानाथ वृत्तान्तं दैत्यसम्भवं माया करासुरो दुष्टश्चकार कर्मकंडनं आसुरं कर्मसर्वत्र सर्वत्र कृतं तेन दुरात्मना तेनो पोषणसंयुक्ता बभूवुर्देवनायकाः तदोहा कृतं कृदं न स्वाहा न स्वधाद्यं वै कर्तुं केनापि शक्यते तदो मुनिवराः सर्वे देवाः शम्भुपुरोगमाः विचारं दैत्यनाशार्थं चक्रुर्भयसमन्विताः ततोवाच महायोगी बृहस्पतिरुदारधीः गणेशं भक्तिसंयुक्ता भजध्वं पदप्राप्तये चतुः पदार्थसंयोगे गणेशो निजबोधकः चतुर्भिर्वर्जितश्चायम् हनिष्यदि महाखलं। श्रुत्वा ते गुरुसंयुक्तास्तपस्ते पुर्महत्प्रभो निराहारादिसंयुक्ता नानानुष्ठानतत्पराः गदे वर्षशदे पूर्णे प्रसन्नोऽभूद्गजाननः आययौ तान् वरान् दादुं भक्त्या तुष्ठो महायशाः तं हर्षसंयुक्ता देवा मुनय आदराद प्रणेमोः पूजयामासु स्तुष्टुवुर्विविधैस्तवैः वरयामासुराधृत्य गणेशं सर्वनायकं दैत्यं जहि गणाध्यक्षप्रभो मायाकरासुरम् तथा मायाविहीनां वै भक्तिं देहि दासास्ते पादपद्मस्य वयं सर्वेण संशयः ृत्वा तान् गणराजस्तु जगाद हर्षसंयुधः मायाकरम् घनिष्यामि शशपुत्रोह मञ्जसा यदि मे वाहनम् तत्र मुख्यम् भवति देवपाह चतुर्देवमयम् विप्रास्तदारोहम् करोम्यहम् मदीया भक् ग्रव भविष्य तो निश्चित सुदृढ़ा मे सदा साष्यथ विशेषद्वा देस्सौ गणेशोदनायकदूत भक्ता सिद्ध अधो मुख्यास्ते विचारं चक्रुरं च सा चतुर्देवमयं तस्य वाहनं कीदृशम् भवेद सर्वांस्तत्र शिवः साक्षादुक्तवान् वाक्यमुत्तमम् वेदमूर्तिमयो देवः सर्वेषाम् गुरुरञ्च सा शिव उवाच अयमूषवाहश्च देवेषु कथितो भवद मूषस्ते ये तथा धातुर्ज्ञातव्यस्तेयब्रह्मदृक् सर्वं तत्रा सद्ब्रह्म नामरूपेषु ये भोगास्तेषां भोक्तास्वमायया भोगेषु भोगभोक्ता कारेण वर्तते अहङ्कारयुधास्ते वै नजानन्दि विमोहिताः वयं भोक्तार एवं ते मानयन्ति विशेषतः ईश्वर सर्वभोक्ता चौर्यवृत्तिषु संस्थितः स एव मूषकः प्रोक्तो मनुजानां प्रचालकः मायया गूढरूपो भोगान्भुनक्तिसचोरवत् तद्वज्जीवनगोदेवः सूर्य आत्मा विशेषतः नानाजीवेषु भोगान् भुनक्ति वै चौरवत् स्वयं समेषु सर्वभोक्ता च विष्णुस्तद्वन्नसंशयः सदसन्मयरूपश्च चौरवन् मायया प्रभुः सहजेषु तथा देवशिवो भोक्ता तुरीयगः चौरवान्नात्र युदो युतो निर्मोहमायया भोक्तारं चौरभावस्तं वाहनं कुरुत प्रियाः मोषकाकृतिरूपं वै दीयताम् गणपायत श्रुत्वा ते हर्षिताः सर्वे शिवं देवर्षयो ब्रुवन् साधु साधु त्वया प्रोक्तम् सर्वज्ञस्त्वम् तदो गणेश्वरम् ध्यात्वा चतुर्भिकल्पितं वपुः तत्र स्वांशं ददुर्देवो भोक्तृरूपं प्रजापते तदंशेन सजीवो भून् भून्मूषको बलसंयुतः ब्रह्माद्वर्षिभिः सार्धमभिषेकं चकारः अन्तर्बाह्यादिकं स्थेयं परं सर्वत्र वर्तते नानाविधं तथैकं च तेषु राजायमुच्यते अभिषिक्तस्वयं तत्र मूषको हर्षितो भवद यज्ञभागस्य भोक्तासौ कृतोै सवास वैः सङ्गृह्य सर्वदेवास्तमुनय शेषमन्दिरम् आजग्मुस्तान् समालोक्य शेषश्च विस्मितो भवद पूजयामास सर्वान् स नागराजो महायशाः नानासनेषु संस्थाप्य पुनस्तान् प्रत्युवाचः शेष उवाच धन्यं जन्मदानं वै तपोज्ञानं स्वभावचं पितरो मुनयो देवा देव दर्शनाद्भवतां किल किमर्थमागताः सर्वे वदत मां सुरर्षयः भवतां कृपया युक्तकरिष्यामि सुभक्तिदः तस्य तद्वचनं श्रुत्वा शङ्करः सर्वनायकः जगाद नागराजं तं हर्षयन् हर्षवर्धनः शिव उवाच शेषशेषमहाभाग धन्यस्त्वं सर्वमण्डले तव पुत्रत्वमापन्नो ब्रह्माणं नायकः प्रभो मूषकगोवतारोऽयं पञ्चवर्षवयोन्विदः मा पुत्रं तं विजानीहि तपसा ध्यानजं प्रभुं तस्येदं वाहनं मुख्यं चतुर्देवः कलांशजं धर्मधरं पूर्णं सर्वेषाम् हृदि वर्तते अस्योपरि समारुह्य मोषकः गः प्रतापवान् मायाकरासुरं सद्यो हनिष्यदि गणेश्वरः एवं तेषां वचश्रुत्वा खेदयुक्तः नागराट न ना सञ्जगौ देवान्पुत्रवत्सलभावदः तदस्तं शङ्करो देव उवाचवचनं पुनः माकेदं कुरु कल्याण विघ्नहानमरिष्यति तपोभिर्विविधैर्देवैर्मुनिभिः प्रार्थितो भवद मायाकरविनाशाय तव पुत्रो गजाननः त्वया दौ तपसादेव आराधिदो गजाननः वरदानप्रभावेण तव पुत्रो बभूवः ये तस्मिन्नन्तरे मूषकगस्तत्र समागदः नागबालैर्महाभागैक्रीडायुक्तो गजाननः समुत्तस्तुः प्रणेमुस्थं दृष्ट्वा विप्राः सदेवपाह तुष्टुवुस्सामवेदस्तेन स्तोत्रेण गणेश्वरं तदस्तान् गणराजो वै वचनं हितकारकम् उवाच वृणुदप्राज्ञा वरं मनेप्सिदम् परम् ततोदिहर्षसंयुक्तास्तमूचुस्ते सुरर्षयः माया करासुरम् स्वामिन् जहिः सर्वभयङ्करम् भक्तिम् देहि गणाधीश तव पादे निश्चलाम् दासा वयं गणेशा न पालयस्वविशेषदः तथेदि वाहनं मेन वरुतते अदो योग्यं महादेव वाहनं दीयतां परं चतुःपदार्थरूपेभ्यो मरणं न प्रविद्यते मायाकरस्य दुष्टस्य कथं कार्यं मया सुराः चतुःपदार्थरूपं मे वाहनं यदि जायते तदाहं तं हनिष्यामि नात्रकार्या विचारणा ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दे, मूषकदेवसमागमो नाम एकोनविंशतितमोऽध्यायः ओम्